आरुजन्पर्वताग्राणि पादपांश्च समुत्क्षिपन् सञ्जहारमहाभ्राणि वैश्वानरपथं गतः ग्रहनक्षत्रताराणां सप्तर्षीणां स्वतेजसा प्रभाजालमतिक्रम्य चन्द्रसूर्यपथं ययौ मेरोः शिखरमासाद्यमध्यमं मधुसूदनः देवस्थानानि सर्वाणि ददर्शभरतर्षभ विश्वेषां मरुतां चैव साध्यानां च युधिष्ठिर भ्राजमानान्यतिक्रम्य अश्विनोश्च परन्तप प्राप्य पुण्यतमं स्थानम् देवलोकमरिन्दमः शक्रसद्मसमासाद्य चावरुह्यजनार्दनह, सोऽभिवाद्यादितेः पादावर्चितः सर्वदैवतैहि, तैः ब्रह्मदक्षपुरोगैश्च प्रजापतिभिरेव च अदितेः दिव्ये ददावथ तदाविभुहु, रत्नानि च परार्घ्याणि रामेण सह केशवः प्रतिगृह्य च तत्सर्वमधितिर्वासवानुजम् पूजयामासदाशार्हम् रामं च विगतज्वरा शचीमहेन्द्रमहिषीकृष्णस्य महिषीं तदा सत्यभामाम् तु सङ्गृह्य अदित्यैवै न्यवेदयत् सा तस्याः सत्यभामायाः कृष्णप्रियचिकीर्षया वरं प्रादाद् देवमाता सत्या, सत्या विगतज्वरा अदितिरुवाच जराम् न यास्यसि वधूर्यावद्वै कृष्णमानुषम् गंधगुणोपेता भविष्य वरान